चतुरशीतितमोऽध्यायः वैशम्पायन उवाच जराम् प्राप्य ययातिस्तु स्वपुरम् प्राप्य चैव हि पुत्रम् चेष्टम् वरिष्ठञ्च यदमित्यब्रवीद्वचः ययातिर्वाच जरावलीच माम् तात पलितानि च पर्यगुः काव्यस्योशनसः शापान् न च तृप्तोऽस्मि प्रतिपद्यस्व पाप्मानम् चरयासः यौवनेन त्वदीयेन चरेयम् पूर्णे वर्षसहस्रे तु पुनस्ते यौवनम् त्वहम् दत्त्वा स्वम् प्रतिपत्स्यामि पाप्मानम् जरया सह यदुर्वाच जरायाम् बहवो दोषाः पान भोजन कारिताः तस्माज्जरान्न ते राजन् ग्रहीष्य इति मे मतिः सितश्मश्रुर्निरानन्दो जरया शिधिलीकृतः वली सङ्गत गात्रस्तु दुर्दर्शो दुर्बलः अशक्तः कार्य परिभूतस्य यौवतैः सहोपजीविभिश्चैव ताम् जराम् नाभिगामये सन्ति ते पुत्रा मत्तः प्रियतरान् रूप जराम् ग्रहीतुम् धर्मज्ञ तस्मादन्यम् वृणीष्व वै ययातिरुवाच यत् त्वम् मे हृदयाज्जातो वयस्वम् न प्रयच्छसि तस्मादराज्य भाक्तात् प्रजा भविष्यति तुर्वसो प्रतिपद्यस्व पाप्मानम् जरयासः यौवनेन चरेयम् वै विषयांस्तव पूर्णे वर्ष सहस्रे तु पुनर्दास्यामि यौवनम् चैव प्रतिपत्स्यामि पाप्मानम् जरयासः तुर्वसुरुवाच न कामयेजराम् तात कामभोग प्रणाशिनीम् बलरूपान्तकरणीम् बुद्धिप्राण यत्त्वम् मे हृदयाज्जातो वयस्वम् न प्रयच्छसि तस्मात् प्रजा समुच्छेदम् तुर्वसो तव यास्यति सङ्कीर्णाचार धर्मेषु प्रतिलोमचरेषु च पिशिता शि शुचान्त्येषु भविष्यसि गुरुदार प्रसक्तेषु च पशुधर्मेषु पापेषु म्लेच्छेषु भविष्यसि वैशम्पायनोवाच एवम् स ययाति सुतमात्मनः शर्मिष्ठायाः सुतम् द्रुह्यमिदम् वचनमब्रवीत् द्रुह्यो त्वम् प्रतिपद्यस्व वर्णरूप विनाशिनीम् जराम् वर्ष सहस्रम् मे यौवनम् स्वम् ददस्व च पूर्णे वर्ष सहस्रे तु पुनर्दास्यामि यौवनम् स्वम् चा दास्यामि भूयोऽहम् पाप्मानम् जरयासः द्रुह्युरुवाच नगजम् न रथम् नाश्वम् जीर्णो भुङ्क्तेन च स्त्रियम् वाक्सङ्गश्चास्य भवति ताम् जराम् नाभिकामये ययातिरुवाच यत्त्वम् मे हृदयात् जातो वयस्वम् न प्रयच्छसि तस्माद्दृह्यो प्रियः कामो न क्वचित् यत्राश्वरथ मुख्यानाम् अश्वानाम् स्यात् गतम् न च हस्तिनाम् पठिकानाञ्च गर्दभानाम् तथैव च वस्तानाम् च गवाञ्चैव शिबिकायास्तथैव च उडुपप्लव यत्र नित्यम् भविष्यति अराजा भोज शब्दम् त्वम् तत्र प्राप्स्यसि सान्वयः ययातिरुवाच अनो त्वम् प्रतिपद्यस्व पाप्मानम् चरया सह एकम् वर्ष सहस्रम् तु चरेयम् यौवनेन अनुर्वाच जीर्णः शिशुवदादत्ते काले न मशुचिर्यथा न ना जुहोति नाभिकामये ययाति यत्वं यत् त्वम् मे हृदयाज्जातो वयस्वम् न प्रयच्छसि प्रोक्तस्तस्मात् त्वम् प्रतिपत्स्यसे प्रजाश्च यौवन प्राप्ता विनशिष्यन्त्यनो अग्निप्रस्कन्दनपरस्त्वम् चाप्येवम् भविष्यसि ययातिरुवाच पुरोत्वम् मे प्रियः पुत्रस्त्वम् वरीयान् भविष्यसि जरावली च माम् पलितानि च पर्यगुः काव्यस्योशनसः शापान् न च तृप्तोऽस्मि यौवने पुरोत्वम् प्रतिपद्यस्व पाप्मानम् जरयासः कञ्चित्कालम् चरेयम् वै विषयान् पूर्णे वर्ष सहस्रे तु पुनर्दास्यामि यौवनम् स्वम् चैव जरयासः वैशम्पायन उवाच एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा यथात्थमाम् महाराज तत्करिष्यामि ते वचः पुण्यं वचनम् पुण्यम् स्वर्ग्यमायुष्करम् नृणाम् गुरुप्रसादात्त्रैलोक्यमन्वशा सच्छतक्रतुः गुरोरनुमतिम् प्राप्य सर्वान् कामानवाप्नुयात् प्रतिपत्स्यामि ते राजन् जरयाहम् प्रतिच्छन्नो वयोरूपधरस्तव यौवनम् भवते दत्वा चरिष्यामि यथात्थ जयातिरुवाच पूरो प्रीतोऽस्मि ते वत्स प्रीतिश्चेदम् ददामि ते प्रजाराज्ये भविष्यति एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यम् महातपाः सङ्क्रयामास तदा पूरौ महात्मनि ये श्री महाभारते आदिपर्व संभव पर्ण युप्याशी तमोध्याय